नारायणीयं दशकं सेवेण्टी वन् मल्टिमीटर्स् यत्नेषु सर्वेष्वपि नावकेशी केशी, केशी स भोजेशिदुरिष्ठबन्धुः त्वं सिन्धुजावाप्य इतीव मत्वा सम्प्राप्तवान् सिन्धुजवाजिरूपः गन्धर्वदामेषगतोऽभिरुक्षैर्नादैः समुद्वेजिद सर्वलोकः भवद्विलोकावधिगोपवाटीं प्रमर्द्यपापः पुनरापतत्वां तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेपवक्षो भुवि नामपादं भृगोः पदाखाद कथां निशम्यस्वेनापि शक्यं तदितीव मोहाद प्रपञ्चयन्नस्य खुराञ्जलं द्रागमुं च च चिक्षेपिथ दूरदूरं सम्मूर्छितोऽपिक्ष्यदि मूर्च्छितेन क्रोधोष्मणा खादितुमादृतस्त्वाम् त्वं बाहदण्डे कृतधीश्च बाहादण्डन्यथास्तस्य मुखे तदानीं तद्वृद्धि गदासु सप्ति भवन्नप्ययमैक्यमागाद आलम्भमात्रेण पश्योः प्रसादके प्रसाधके इवाश्वमेधे कृते त्वया हर्ष वशात् सुरेन्द्रास्त्वां तुष्टुभुक् के नामधेयम् कंसायते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कम् प्रतिरुभ्य वाच प्राप्तेन के शिक्षपणावसाने श्रीनरदेन कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वां मयात्मजःप्रापदुरन्तमायोव्योमाभिद्धो व्योमचरोपरोधी सचोरपालायिधल्लवेषु चोरायिदो गोपशिशून् पशूंश्च गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दिदो परिमर्दितोऽभूद एवंविधैश्चाद्बुद केलिभेदैरानन्दमूर्च्छा मधुलां व्रजस्य पदे पदे नूतनयन्नसीमां परात्मरूपिन पवने शपायाः